दशकं श्रुत्वा ना भूमेश्च भीमैर्नफैः जाने दीनदशामहं दिविषदां भूमेश्च भीमै नृपैः जाने दीनदशामहं दिविशदं दिविषिदां भूमेश्च भीमैर्नृपैः जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपैः क्षेपाय भवामि यादवकुले सोऽहम् समग्रात्मना सक्षेवाय भवामि यादवकुले सोऽहं समग्रात्मना सक्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना देवा वृष्टिकुले भवन्धुकलया देवाङ्गना च वनौ देवावृष्णिगुणे भवन्तु कलया देवाङ्गनानौ देवावृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनौ मल्से वात्तमिजिवान् मल्से पादोज भूरूजिवान् मत्सेवार्थमिति त्वदीयवचनम् पातो जभूरूचिवान् जाने दीनदशामखम् दिविशदाम् भूमेश्च भीमैन्द्रिवैः तल्क्षेवाय भवामि यादवकुले सोऽहम् समग्रात्मना जाने दीनदशामखम् दिविशदाम् भूमेश्च भीमैन्द्रवैः क्षेपाय भवामि यादवकुले सोऽहं समग्र जाने दीनदशामहं दिविषधा भूमेश्च भीमैर्वृपैः प्रक्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना देवा विष्णुकुले भवन्तु कलया देवाङ्गना च वनौ वल्से वा तमिदि त्वदीयवचनं पादोज बूरुजिवान् देवा वृष्णकुले भवन्तु कलया देवाङ्गना च वनौ मल्से वाथमिदि त्वदीयवचनं पादोजबूरुजिवान् देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनौ मत्सेवार्थमिति त्वदीयवचनम् पार्थो जभूरूचिवान् जाने दीनदशामखम् दिविशदाम् भूमे च भीमैन्द्रिपैः तल्चेवाय भवामि यादवकुले सोऽहम् समग्रात्मना देवा विष्णुकुले भवन्धुकलया देवाङ्गनाचावनम् एवात्तमिरि देवा त्वदीयवचनं जिवान् जाने <laughs> दीनदशामहं दिविश्रुतां भूमेश्व भीमैर्नृः तक्षेवाय भवामि यादवकुले सोऽहं समु समग्रात्मना देवावृष्णिकुले भवन्तु कलया देवाङ्गनार्थमिति भूचिवान् जाने दीनदशामहम् दिविषधाम् भूमेश्च धीमैर्पैः प्रक्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनौ मत्सेवार्थमिष्टि त्वदीयवचनम् पाथो जभूरुचिवान् वन् टु त्रिशदा तदा की एव मय भवामि यादव कुले ग्रास्मना देवावृष्णिकुले भवन्तु कलयां पवनौ मत्सेवा श्रुत्वायनं तव वजः सर्वेषु निर्व्यापित निर्वापित श्रुत्वा कर्णरसायनं तव सर्वेषु निर्वापित श्रुत्वा कर्णरसायनं तव सर्वेषु निर्वापित स्वाद्वेष् शगदेषु तापक कृपा पीयूषतृप्तात्मसु स्वान्देष्गदेषु तापककृपा न्ते स्वान्तेष्गतेषु तावक कृपापीयूषतृप्तात्मसु विख्यादे मधुरापुरे किल भव सान्निध्यपुण्योत्तरे विख्यादे मधुरापुरे किल भव सान्निध्य पुण्योत्तरे MATURAPURE DE RAJA ख्याते मधुरापुरेखिलवत्सान्ध्य पुण्योत्तरे धन्यवन्द राजा सशूरात्मज धन्यवगनन्दनामुदव राजा सशूरात्मज इ अन्यं देवान्दना न्दना नन्दनानोन्देन्दनात्मज श्रुत्सयम् सर्वेषु निर्वापित स्वान्देष्पककृपात्मसु स्त्वा कन्नरसायनं तव वचः सर्वेषु निर्वापित स्वान्देष्गदेषु तापककृपा पीयूषतृप्तात्मसु स्वा कर्णरसायनम् तव वचः सर्वेषु निर्वा निर्वापित स्वान्तेष्वीशगतेषु तावककृपा पीयूषतृप्तास्मसु विज्ञादे मधुरापुरे किल भवत्सान्निध्यपुण्योत्तरे जन्याम् देवगनन्दनामुदवः दृश्राजा सशूरात्मजः विख्याते मधुरापुरे किल भवत् सान्निध्य पुण्योतरे विख्याते है भो विख्याते मथुरापुरे किल भवत् सान्निध्यपुण्योतरे धन्यां देवकनन्दनामुदवहत् राजा सचोरात्मजः किल भवत्सान्निध्यपुण्योत्तरे धन्याम् देवकनन्दनामुदवहद्राजा सशूरात्मजः श्रुत्वा कन्नरसायनम् तव वजः सर्वेषु निर्वाभिदस्वादेशी शगदेषु तावट कृपापीयूषतिर्तात्मसु विख्याते पुण्योत्तरे जन्यां देवगनन्दनामुदवहत्रा राजा सशूरात्मजः श्रुत्वा कन्नरसायनं तव वचः सर्वेषु निर्मापित स्वान्देशीशेषु तव भगकृपा पेयूष विख्यादे मधुरा पुरे किल भवत्सान्निध्यपुण्योतरे धन्याम् देवगनन्दनामुद वहर् राजा सचूरात्मजः श्रुत्वा कर्णरसायनम् तव वचः सर्वेषु निर्वापित स्वान्तेष्वीशगतेषु तावककृपा पीयूषत्रत्वात्तृप्तात्मसु विख्याते मथुरा पुरे किल भवत्सान्निध्यपुण्योत्तरे धन्याम् देवकनन्दनामुदमहद्राजा सशूरात्मजः वन् टु त्रि श्रुत्वा जयाम्माङ्गि तङ्गि तङ्गि वे चिन् ते थो तो तुद्वराग को डते म्हों धुपाटनाना, शाइओँ रेच Background वाल भِधर ऑच्छ मिन्हों वोइस में भांग से लिएपरमा थे मैं खुर्भीन को डिन्हों कारें, 0-0-0-0-0-0-0,0-0-0-0-0-1-0-0-0-0,0-0-0-0 listening to the Pride campaign, connect with the Restoration, repentance, come hear it and talk on your recorded as timeces, Listening to theあיבle al speech दिवाप दे दे विख्यादे सर्वे धन्या देव राजा राजा सूरा इ नाम आर् क्षिर वैकं उद्वासिवासितौ तदीय सहजः कंसोद समानयन् उद्वाद्वासितौ तदीय सहजः कंसोद सम्मानयन् दतया गदः पदिरेव व्यो मोतया त्वद्गिरा यदौ सुदतया गदः पदिरथेव व्यो मोदया त्वद्गिरा व्योमोद नेतौ सूततया गतः पतिरथेव्यो मोक्षया त्वम् अस्या स्वाम् अतिदुष्टमष्टमसुतो हन्तेरितः धात् संत् स तु हन्त मन्दिगदां तन्वीं कृपाणि मधात् सदु हन्दुमन्दिकगदां खन्दुमन् गताम् तन्निीम् कृपाणी मदाद् नन्त्रा सा स तु हन्तु मन्तिकगताम् तन्वीम् कृपाणामि कृपात् कृपाणी मदात् उद्वाहावसिदो तदीयसहज कंसोदसम्मानयन् एदो देव्यो मोत्तया त्वद्गिरा सितौ तदीयसहजः सम्मानयन् एतौ सूततया त्वद्गिरा उद्वाहावसितौ तदीयसहजः पतिरथे व्योमोथया त्वद्गिरा अस्या त्वाम् अधिदुष्टमष्टमसुदो हन्ते दिहन्तेरितः सन्द्रासतु हन्तु मन्दिकगदां तन्वीं कृपाणी मदादि अस्या स्वामरिदुष्टमष्टमसुदो हन्ते दिहन्तेरितः सन् सन्द्रासतु हन्तु मन्दिक गदां तन्वीं अस्यास्त्वामति दुष्टमष्टमसुतो हन्ते सन्त्रा सं, स तु हन्तमन्तिकगतां तन्वीं कृपाणीमधात् हन्तु हन्ति हन्तु हन्तुमन्तिकरे हन्तुमन्तिकगताम् हन्दि मन्दि गदा हन्तु मन्दिक गदा उद्वादीयसहजः कं सोदसम्मान् कं सोदसम्मानयन् एदो सुददया गदपदिो मोत्तया त्वर्गिरा अस्या त्वां हरिदुष्टमष्टमसुदो हन्तेरिहन्तेदः सन्द्रासदु हन्तु मन्दिकगदां तन्नीं कृपाणीमदाद उद्वाहावसि उद्वाहावसितौ तदीयसहजः कंसोध सम्मानयन् एतौ सूततया गजः व्योमा व्योमो थदया त्व गिरा कृपाणि okay. उद्वाहा वसितौ तदीयसहजः कंसोध सम्मानयन् एतौ सूततया गधपदिरथे व्योमोधया अस्यास्त्वाम् अधिदुष्टमष्टमसुदो हन्ते हन्ते दिदः सन्द्रत्सतु हन्तुमन्ति जगताम् तन्विं कृपाणीमधा तदीयसहजः कं सोत सम्मानयन् एतौ सूचतयागतः पतिरते व्यो मोथया स्वद्गिरा अस्यास्त्वाम् अतिदुष्टमष्टमसुतो हन्तेति हन्तेरितः सन्त्रासा स तु हन्तुमन्ति गगताम् तन्वीम् कृपाणीमधात् वन् टु त्रिवाहासितौ तु मा दिरा अष्टमष्टमसुतो हन्ते याः सन्द्रासा श्रु हन्तु मन्ति जगदान्त कृपाणि मधा ृण्णानच्चिगुरेषु तां गलमदिः शौरेश्चिरं सान्त्वनैः गृह्णानच्चिगुरेकुरेषु खलमदि सौरेश्चिरं सान्त्वनैः गृह्णानश्चिगुरेषु तां खलमतिः सौरेश्चिरं पुनरात्मजार्पण गिरा प्रीदोदयातो गृहान् नो मुञ्जन् पुनरात्मजार्पण गिरा प्रीदोधयातो गृहान् नो मुञ्चन् पुनरात्मजार्पणगिरा Aadyam tu l произлось haja m'taapitam Rocky Sn isn an masuk. Aadyam tu l suhaja m'tadarpi thama screens on hiya m'an notion," Aadyam tum tsama jam' batapitam enroll a nettoyahu ष्टा हि धीरे कथा दुष्टानामपि देवपुष्टकरुणा दृष्टा कृण्णानच्चिगुरेषु तां जलमदिः शौरेश्चिरं स्वान्दनैः प्रोमुञ्चन् पुनरात्मजार्पणगिरा प्रीतोदयादो गृहान् कृन्नानच्छिगुरेषु तां खलमतिः ृह्णानश्चिकुरेषु ताम् कलमतिः शौरेश्चिरम् सान्त्वनैः नो मुञ्चन् पुनरात्मजार्पणगिरा प्रीतोतयातो गृहान् आद्यम् तुर्सगजम् तदापिदमभिस्नेहेन नाखन्नसौ दुष्टानामभिदेवपुष्टकरुणा दृष्टा चिक्रे गदा द्यम् त्वल्सहजम् तथापितमपि स्नेहेन आद्यम् त्वत्सहजम् तथापितमपि स्नेहेन नाहन्नसौ दुष्टानामपि देवपुष्टकरुणा दृष्टा हि धीरेकदा नच्चिगुरेषु ताङ्गलमदिः शौरे चिरम् स्वान्दनीः रोमुञ्चन् पुनरार्पजार्पणगिराप्रीतोदयादो गृहान् आर्यम् तत्सहजम् तदार्पितमपि स्नेहेन नाहन्नसौ तुष्टानामभिदेव पुष्टकरुणा िन्नानच्छिकुरेषु तां खलमदि सौरे स्थिरं सान्त्वनैः नो मुञ्जन् प्रीदोधयातो गृहान् आद्यं तुसहजं तदार्पितमभि स्नेहेन नाहन्नसौ दुष्टानामभिदेवपुष्टकरुणा दुष्टा है धीरे गृह्णानश्चिकुरेषु ताम् खलमतिः शौरेश्चिरम् सान्त्वनैः प्रीथो तयातो गृहान। प्रीथोतया तो गृहान् स्नेहेन नाहन्न दुष्टानामपि देवपुष्टकरुणा दृष्टा हि धीरेकदा वन् टु त्रि ेषुताम् खलमतिः शौरे आर्यम् तत् सखजम् ददाशिदमीनामभिदेव निः प्रोचेसोजेश्वरम् तावत् त्वन्मनसैव नारदमुनिः प्रोचेस भोजेश्वरम् प्रोचे योऽयम् नन्वसुरासुराचयदवो जानासि किम् न प्रभो सौण्ड् वर्द मामि वद प्रोब् नन्न सुरासुराश्च यदवो जानासि किं न प्रभो इपोकटुत्न्वसुरासुराश्च यादवो जानासि किं न प्रभो मायावी सहरिर्भवद्वदकृते वाविसुरप्रार्थनात् मायावीसहरिर्भवद्वदकृते भावीसुरप्रार्थनात् मायावी स भा... मायावी स हरिर्भवद्वध कृते भावीसुरप्रार्थनात् इत्या कन्यो शौरे च सूरो इत्याकर्ण्यधूनधु धुनधसौ इत्याकर्ण्यदूनधु धुनधसौ शौरेश्च सूनूनहन् इत्याकर्ण्यधूनधु धुनधसौ शौरेश्च सू सूनू वन्मनसैव नारदमुनिः प्रोजे स भोजेश्वरं योयं न सुरासुराश्च यदवो जानासि न प्रभो तावत् तन्मनसैव नारदमुनिः रोचे स भोजेश्वरम् असुरासुराश्च यदवो जानासि किं न प्रभो तावत् त्वन्मनसैव नारदमुनिः ब्रोचे स भोजेश्वरम् यूयम् नन्वसुरासुराश्च यजगो जानासि किम् न प्रभो हरिर्भवद्वदकृते <laughs> <laughs> <laughs> <laughs> <laughs> mm, <laughs> <चोले>. भावीसुरप्रार्थना <laughs> Ityyakanya Yaduna Dhu Nunu Dasau Shauresh Shununahan अम्मा आया पर निम्स्वा जयामा Yaduna Dhu Dhuna कोट रिक Yaduna Dhu नी वन्दू Nunu चोनाई यह नोड़त दू चोलिकाई, थाकिन कर्क्त? Yaduna Dhu Dhu Nunu Dasau Yaduna Dhu Dhu Nunu Dasau Okay, sorry मायावि कल्यायु नू न ह मायावी सहरिर्भवद्भदकृते भावि सुरप्रार्थनात् इत्याकन्य इत्याकन्यूनदूधुनदसौ शौरेश्च सूनु सूनू न हन् तावत्तन्मनसैव नारदमुनिः भोजे स योऽयं न सुरासुराश्च यदवो जानासि किं न प्रभो मायासि मायावी सहरितनाद् यदून्न दूधूनदसौ सह वर्तन्मनसैव नरदमुनिः प्रोचे स भोजेश्वरं यूयं नन्मसुरासुराश्रमो जानासि किं न प्रभो मायावीषि हरिर्भवद्वथकृते भावीचुरा प्रार्थना इत्याकर्ण्य यदू न दू दूधुनदसौ शौरेश तावत् तावत् त्वन्मनसैव नारदमुनिः रोचे स भोजेश्वरम् यूयम् नन्वसुरासुरा श्रयदवो जानासि किम् न प्रभो मायावी स हरिर्भवद्भदकृते भावी सुरप्रार्थनात् ैश्च त्रिसैव प्रोचे सफोजेश्वरम् योयम् नन्वसुरासुरा किं न प्रपदो मायावीसहजृदे प्रार्थना इत्याकल्यो नूतनौ सर्वे सो नूनहन् प्राप्ते सप्तमगर्भदाम् महिपतौ त्वत्प्रेरणान् मायया प्राप्ते सप्तमगर्भमहिपतौ त्वत्प्रेरणात् मायया प्राप्ते सप्तमगर्भदामहिपतौ त्वत्प्रेरणान् मायया हिणीं त्वमवि भोः सच्चुखैकात्मकः नीते माधवरोहिणीं त्वमपि भोः सच्चित्सुखैकात्मकः देवस्य जठरं विविशिध विभो संस्तूयमान सुरैः विवेशित विवेशित ओ इोद विविशितविझटरं विवेशितविभो संस्तूयमानसुरैः सत्यं कृष्ण विदूयरोगपटीं भक्तिं परां देहि सत्त्वम् कृष्णविधूय रोगपटलिम् भक्तिम् पराम् देहि मे सत्त्वम् कृष्णविधूय रोगपटलीम् भक्तिम् पराम् देहि मे सप्ते सप्तमगर्भदामहिबो त्वत्प्रेरणान् मायया नीरे माधवरोहिणीं त्वमविभोः सच्चित् सुगैकात्मगः प्राप्ते सप्तमगर्भदामहिपतौ त्वत्प्रेरणात् मायया नीते माधवरोहिणीं त्वमपि भो स्वच्यसुभैकात्मकः प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान् मायया नीते माधवरोहिणीं त्वमपि भोः सच्चित् ेवज्ञा जठरं विवेशितविभो संस्तूयमानसुरैः सत्वं कृष्णविधूय रोगपडलिं भक्तिं परां देहि मे देवज्ञां विवेशितविभो संस्तूयमानसुरैः सत्वं कृष्णविधूय रोगपडलिं भक्तिं परां देहि देवत्याजठरम् विवेशितविभो संस्तूयमानः सुरैः सत्त्वम् कृष्णविभूय रोगपटलीम् भक्तिम् पराम् देहि मे प्राप्ते सप्तमगर्भदाम् महिबदो तल्प्रेरणान्मायया ईदेमाधवरोहिणीं तमविभोः सच्चित्सुगैकात्मकः विभो कृष्ण ैः सत्त्वं कृष्णविदूयरोगीं भक्तिं परां देहि मे प्राप्ते सप्तमगर्भामभिपतौ त्वत्प्रेरणाधवरोहिणीं त्वमविभो सच्च सुभैगात्मकः देवैत्याजधरम् विवेशितविभो संस्तूयमानः सुरैः सत्त्वम् कृष्णविधूय पराम् देहि प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान् मायया नीते माधवरोहिणीम् त्वमपि भोः सच्चित्सुकैकात्मकः देवख्या झठरम् विवेशितविभो संस्तूयमानः सुरैः सत्त्वम् कृष्णविधूयरोगपटलीम् भक्तिम् पराम् वेहि मे वन् टु प्राप्ते सप्तमगतात्मकः देवैया जे शिलिभोसूयमा सदुवशयजोगपरीपरां யமாலதே நாம சங்கீதம் गोविंदா ஆ இது गोविंदா அஞ்சிலேந்து சேர்ந்து சொல்லலாமா சொல்லுங்க சொல்லுங்க ஜானேலெந்து ஓகே இப்ப சரியா அச்சா ஆ இது சரியாயிடுச்சு அங்களோட வாய்ஸ் க்ரேஸேமா சிங்கறது இத்தல நான் மட்பதை இஷ்டச் சொல்லிக்கنده போய்க்கங்கோ அப்ப சரியாகு அப்பதான் ஜார கூட சேரது அப்ப ஓகே ஆ ஓகே அஞ்சிலேந்து தொடங்கலாம் தொடங்கலாம் 1 2 3 ीन दशामहम् महषदाम्बूश्च भीमैव्यात्मनात्मना देवा कलया देवाङ्गनाखावनौ सेवा सेयजनाथोजभूषिवान् सर्वेषुर्वा पितः स्वान्देष् सगती मधुरा भुजे किल पवल् सान्निध्यपुण्योत्तरे धन्या देवगनन्दना राजा सूरात्मजः अस्या स्वामरिदृष्टमष्टमसु हन्ते हन्ते देश्रा हन्तु मन्दिकृपाणि मधु न्दसौ दुष्टामपि देवं करुणा दृष्टा शिरीकथा ैव नाटे सभोजेरं योऽयं जन्म सुधासुरासु जानासि किं न प्रभो मायामीभवद् भवामी सुरम् प्रार्थनात् कन्यायुनौ सवनून प्रामगामेव संसूयमानसुरैः यण पादपङ्कज पङ्करोमि नारायण पूजनं सदानं सदामि नारायण नाम निर्मलं स्मरामि नारायण तत्त्वमव्ययम् <todic> नारायण